अथर्वेदे पञ्चमाष्टके चतुर्थोऽध्यायः ओ प्रब्रह्मैः तुसदनादृतस्य विरश्मिभिः ससृजे सूर्योगाः विधानुना पृथिवी सहस्रभुर्वी पृथुक्प्रतिः कमध्येतेः अग्निः इमाम् वाम् निवर्णासुभक्तिभिषन्नकण्डे असुरानवी यः किलो वा आमन्यः पदबीरदब्धोजनम् च मित्रोजततिब्रुवाणः आवातस्य ध्रजतोरन्त इत्या अपेपयन्त धेन वो नसूदाः महो दिवः सदतेजाय पादोचिक्रद गिराय एता जुलधद्धरे एत इन्द्रप्रिया सुरथा प्रयो मन्यम् रिक्षतो विनात्या सुक्रतुमर्यमणम् वहृत्या यजन्ते अस्य सख्यम् वयश्चनमस्विनश्व हृतस्य धामन् विवृक्षो बापेरभिस्तवान इदम् नमो रुद्राय प्रेष्ठम् सरस्वती सप्तथे सिन्धुमाता याः सुष्पयन्त सुदुघाः सुधारा अभिस्तेन पयसापीत्याः उतत्येनो मरुतो मन्दसानाधियन्तोकञ्चभाजिनो बन्तो बालः परिख्यदक्षराचरन्त्यवे वृथम् युज्यन्ते रजिन्नाः प्रभो महिबलमतिम् ऋणध्वम् प्रपोषणं विगत्या अन्नवीरम् भगन्धिजो वितारन् अस्याः सातौ वाचम् रात्रिशाचम् पुरन्धिम् अच्छायम् वो मरुदश्लोक एतच्छाविष्णुम् निषिक्तपामवोभिः उत प्रजाय गृणते वयोजो दुर्योऽयम् वा हातस्वस्तिभिः सदा नः आपो वाहिष्ठो वहतु स्तवध्यैरथो वाचारुभुक्षणो अवृत्तः अभित्रिपृष्ठैः सवलेषु सोभैर्मदे सुिप्रामहभिः प्रृणद्धम् योजम् हरत्नम् अघवत्सुधत्थः स्वर्दृषरुभुक्षणोऽम् संयज्ञेषु स्वधावन्तः पिबद्धम् विनो राधा हंसि मतिभिर्दयद्धम् उवोचिथहिमघवन्देष्णम् महो अर्भस्य त्वमिन्द्रस्वयशाक्षावाजो न साधुरस्तमेशिरक्वायन्नुते एताश्वां सस्यामब्रह्म कृण्वन्तो अहरिवो वसिष्ठाः सनिता सित्प्रवतो अदाशुषे एचिद्याभिर्विवे एषो हर्यश्वः पवन्मारुते युज्या अभिरुते कदा न इन्द्रराय वासय सेवभेदसस्पन्नः कदा न इन्द्रवचसो बोधः अस्तन्तात्याजयारयिम् सुबीरम् वृक्षो नो अर्वाण्युहीतभाजी अभियम् देवी निरतिश्चिदेशेन क्षन्त इन्द्रम् शरदः उपत्रिबन्धुर्जरदष्टिवेत्यश्वपेशञम् कृणवन्तमर्ता आह आ नो पर्वतस्य राधौ सदा आनो दिव्यः पायुषिषक्तु यूयम् पा आत स्वस्तिभिः सदा आनः उदुष्य देवः स विता ूनम् भगोहव्यो मानुषे फिर्भियो रत्ना आपुरूपसुर्दधा आति मुदुतिष्ठ सभितः श्रुध्या अस्य हिरण्यपाणे प्रभृता वृतस्य यो उर्वीम् पृथ्वी ममतिम् सृजानः नृभ्यो अमर्थभोजनम् सुमानः अपिष्टुतः सभिता देवो अस्तु यमाचिद्विश्वे वसवो घृणन्ति स न स्तोमा अन्नमस्याश्च नो ओधा विश्वे एभिः पातु पायुभिर्न्यसूर्येण अभियन्देव्यदितिर्गृणाति समम् देवस्य सभिसुर्जुषाणा अभि सम्राजो वरुणो गृणन्त्यभिमित्रासो ओ अर्यवा सजोषाः अभिये मिषो परुषः सपन्ते रातिन्योराः पृथिव्याः अहिर्बुध्य उत न शृणोतुे केभिर्निपातु अरुधन्नो जास्पतिर्मंशेष्टरत्नम् देवस्य स वितुर्यानः भगमुग्रोपसेजोहवेति भगवनुग्रो अधयाति रत्नम् शन्नो भवन्तु वाजिनोहमेषु देवता आताभितद्रवः स्वर्गाः दम्भजन्तो हि मृगम् रक्षा हंसि सने वाजे एवाजेवत वाजिनो नो धने एषु विप्रा अमृता हृतज्ञाः अस्य मद्भः पिबतमादयध्वम् तृप्ताया आतपथिभिर्देजानैः ऊर्ध्वो अग्निः स्वमतिम् वस्वो अश्रे प्रतीचेजोर्निर्देवता आतिमेति भेदा अद्रि एरथ्ये एव पन्था आमृतम् होता आन इषितो प्रपा आवृते सुप्रजाबर्हिरे एषा वा विष्पते एव इयाते विशा भक्तो रुषसः पूर्वहो ऊतौ वायुः पूषा स्वस्तये ए नियुत्वान् अत्र वसपोरन्त देवा उरापन्तरिक्षे मर्जयन्त शुभ्राः अर्वा क्रथ उरुज्रयः श्रोता आदूतस्य जग्मुषो नो तेः यज्ञेषु यज्ञाः सोमाः सतस्थम् विश्वे अभिसन्ति देवाः अध्वर उशतो यक्षज्ञे सृष्टिभगन्दा सत्यापुरन्धिम् आज्ञे किलो दिव आपृथिं यामित्रम् वह वरुणमिन्द्रमग्निम् आर्यमणमलितिम् विष्णुमेषाम् सरस्वती मरुतोः मादयन्ताम् रे हव्यम् अतिभर् आनान्नक्षत्कामं मर्त्या आनामसिन्वन्न धाता आरयिमपि दस्यम् सदासां स्येभिर्नुदेवैः नो रोदसे अभिष्टुदेवसिष्ठैरता वा आनो वरुणो मित्रो अग्ने यच्छन्तु चन्द्रा उपमन्नो अर्कम् योऽयम् वा आतस्वस्तिभिः सदा ृष्ट्यमे तु प्रतिष्ठो मन्दति महितुराणाम् यदद्य देवः समिता सुपातिस्यामास्य विधागे। विभागे मित्रस्तन्नो वरुणो रोदसे च द्युभक्तमिन्द्रो अर्यमा ददातु दिने एष्टु देव्यतिरेग्नो वायुष्टयन्नियुवैते दे भगश्च से दुग्रो अस्तु मरुतः स सुष्मीयम् मद्यम् पृषदश्वा अवाथ उते भग्निः सरस्वति जुलन्ति न तस्य राजः परिणुयेतास्ति अयम् नेता वरुणहृतस्य मित्रो राजा आनो अर्यमा बोधुः सुहवा आ देव्यलीलनर्वातेनोऽपर्षन्नरिष्टान् अस्य देवस्य दे मीढुषो अभजाविष्णो ओरेषस्य प्रभृते हविर्भिः विदेहि रुद्रो रुद्रियम् महित्मय्या आशिष्टम् वर्तिरश्विनाविरावत् मात्रपोषन्ना कृण इरस्योपरोऽत्रेयद्रा त्रिषातश्चरासन्न मजोभुवो नो अर्वन्तो निपान्तु वृष्टिम् वरिज्मावातो ददातु नो रोदसे अभिष्टुदेवसिष्ठैरतावा नो वरुणो मित्रो अग्निः यच्छन्तु चन्द्रा उपमन्नोः अर्कम् यूयम् पात स्वस्तिभिः सदा नः प्रातरग्निम् प्रातरिन्द्रम् हवामहे प्रातर्मिद वरुणा प्रातरश्विनाः प्रातर्भगम् पूषणम् ब्रह्मणस्पतिम् प्रातः सोममुदरुद्रम् मुभेम प्रातर्जितम् भगमुग्रम् हुवेम प्रातर भजम् पुत्रमदितेर्योऽपि धर्ता आद्रश्चिद्यम् मन्यमानस्तुरश्चिद्राजा चिद्यम् भगम् भक्ष्येत्याह भगप्रणे एतर्भगसत्यनाथो भगे मान्धिजमुदमादरन्नः भगप्रणो जनजगोभिरश्वैर्भगप्रनृभिर्ध्रुवन्तस्याः उदेदानीम् भगवन्तस्य भूतप्रपित्त उत मध्ये अह्नाम् उतोदितामहवन्तोर्यस्य वयम् देवानाम् सुमतौ स्याम भग एव भगवान् वस्तु देवास्तेन वयम् भगवन्तः स्याम तन्ताः भव सर्वैद्योहवीतिसनो एता भवेह समद्धरा योषसो ॐ नमन्तदधिक्रावे पदाय पर्वाचीनम् वसुविदम् भगन्तो रथमिवाश्वा आवादिन आवहन्तु अश्वा आवतीर्गोमतेर्न उषासो ओवीरवतेः सदमुच्छन्तु भद्राः घृतम् दु आना विश्वतः प्रपे एता यूयम् पातस्वस्तिभिः सदानः प्रब्रह्माण्डो अङ्गिरसो नक्षन्त प्रक्रन्द दुर्न धन्यस्य प्रथे उदप्रतो उदप्लुतो नवन्त युज्यातापद्रेः अध्वरस्य पेशाः सुगस्ते अग्ने सनवित्तो अध्वाः युक्ष्वासुते हरितो रोहितश्च ये वासद्मन्नरुषावीरमाहो हुवे देवानाञ्जनिमानि सत्तः समुवो जग्म्महजन्नमोऽभिःप्रहोताः मन्द्रोलिरित उपाके यदस्वशुपुर्वणिकदेवानाजिज्ञया परमतिम्बवृत्याः यदा वीरस्य देवतो दुरोणे स्योदशीरतिराचिके एतत् सुप्रे एतो अग्निः सुधितो तमः सविषेता इमन्नो अग्ने अद्भरञ्जुषस्तमुरुत्स्विन्द्रे एशसङ्कृधीनः आनक्ताः बर्हि सदता मुषा सोषन्ताः ग्निम् सहस्य अम्बरिष्ठो रायस्का आमो विश्वप्स्यस्तौत् इषम् रजिम्बप्रसद्वाचमस्मे यूयम्बा आदस्वस्तिभिः सदा आनः प्रभो अ यज्ञेषु देवयन्तोऽ अर्चन्यावानमोऽभिः पृथिवे इषध्यैः येषाम् ब्रह्माण्यसमाधिभिप्रा विश्वग्भ्यन्ति वलिनो न शाखाः प्रजद्ध हे एतुेत्व सत्यच्छम् समनसो घृताजे स्त्रीतबर्हिरध्वराय साधोर्भाशोजींषि देवयोऽन्यस्थुः आपुत्रासो न मातरम् विभृत्राः सानो ओ देवासो अबर्हिषः सदन्तो आविश्वाजे एविरच्छा आमलत्त्वग्देवा नो अदेवता आतास्कः ते से एष पन्तजोषमाय जत्रा ऋतस्य धाराः सुदुखा दुहानाः ज्येष्ठम् वो अद्य महावसो रामानन्दरसमरसो अग्ने विक्ष्वादशस्य त्वजाः वयम् सहसा वन्नास्क्राः राजा जुजासधमादो अरिष्टाजूजम्बात स्वस्तिभिः सदा अधिक्राम्बः प्रथममश्वि दोषसमग्निम् समिद्धम् भगभूतये हुवे इन्द्रम् विष्णुम् पोषणम् ब्रह्मणस्पतिमादित्या न्यावाः पृथिवी अपस्वाः दधिक्रामु नमसा बोधयन्त उदीराः यज्ञमुपप्रयन्ताः इडाम् देवेम् बर्हिति साधयन्तोऽस्मिनाभिप्राः सुहवाः हुवेम दधिक्रावा आणम्बुबुधानो अग्निमुपब्रुव उष संसूर्यङ्गाम् वर्धम्र्वरुणस्य बभृन्ते विश्वास्मद्दुरितायाः वयन्तु अधिक्रावा आ प्रथमो वाज्यर्वाग्रे रथानाम् भवति प्रजानन् संविधान उष सा सूर्ये एणादित्येभिर्वसुभिरङ्गिरोभिः आनोदधिक्राः पथ्या आमलकृतस्य बन्धामन्वे एतवा शृणोतु नो दैव्यम् शब्दो अग्निः शृण्वन्तु विश्वे हे महिषा अमोराः आ देवो यातु सविता सुरत्नोऽन्तरिक्षप्रामहमादो हस्ते तथा आदो नर्याः पुरोणि प्रसुवञ्च भूमा उदस्य भावो शिथिला प्रभन्ताः आरण्ययाः दिवो नूनम् सोऽ अस्य महिमापनिष्टसूरश्चिदस्मा अनुदानपस्या सखा आनो देवस्य पिता सहा वासाविषद्वसुपतिर्म्बसूरिम् विश्रयमाणोऽमतिमुचिम् अर्थभोजनमधरासते नः इमागिरस्य वितारम् सु जिह्म् पूर्णकभस्तिमीलते सु पाणिम् चित्रम् वयो इमा रुद्राय स्थिरधन् वने गिराः क्षिप्रेशवे देवाय स्वधाने ए अशाय सहवानाय वेधसे एमायुधाय भरता शृणोतु नः सहि चेतते अवन्नवन्देरुपदो दुरश्चरानमेवो रुद्रजा सुनो याते ते एद्युदवसृष्टा दिवः परिक्ष्मया चलति परिसावृणक्तुनः सहस्रम् ते स्वपि वातभेषजामानस्तोकेषु तन येषुरीरिषः मानो अवधेरुद्रमापराधामा ते ए भूमप्रसितौ हीलितस्या आनो अभज परिषि जीवशंसे यूयम्पातस्वस्तिभिः सदानः आपोयम्बः प्रथमन्दे एपयन्त इन्द्रपानभूर्मिवः अम्बो अभयम् शुचिमरिप्रमद्यहृतपृषम् मधुमन्तम् वनेम तूर्मिमा आपो मधुमत्तमम् वोपान्नपादवत्पाशुभेमा यस्मिन्निन्द्रो वसुभिर्मातया आते तमश्यामदे पयन्तो अभो अद्य सतपवित्रा स्वथयापदन्तीर्देवीर्देवानामपि यन्ति पाताः इन्द्रस्य नमिनन्ति व्रता निसिन्धुभ्यो हव्यम् कृतवज्जुहोत याः सूर्यो रश्मिभिरातता न इन्द्रो अरतद्गातु मूर्मिं ते सिन्धवो अधिबोधातनानो यूयम् पाहातस्वस्तिभिः सदा नः प्रभुः क्षणो वाजामादयद्भवस्मे नरोमघवानः सुतस्या आवोर्वाचक्रतबो न रुगो रुगो भो विभुभिः शवसा शवा अंसि वाजो अस्माङ्गतु वाचसातामिन्द्रेण युजातरुषेमवृत्रम् ते चिद्य पूर्वैरभिसन्दिशासा विश्वा अङ्गर्य उपरताहादिवन्वन् इन्द्रो विभ्वा आङ्गुभुक्षा वाजो अर्यः शत्रो ओर्मिथत्याकृगृह्णम् एवासो वरिवः भूतनो विश्वे सजोषाः समस्मे इषम् वसभोदीरम् योऽयम् पाः तस्वस्तिभिः इन्द्रो या आपो ओ देवीरिह या आपो ओ दिव्या उतमाश्रवन्दि खनित्रिमा उतवाया स्पजाः समुद्रार्थाया आपो ओ देवीरिह यासाम् राजा वरुणो याति मध्ये ए सत्या नृते अवपश्यञ्जनाम् यो या आपकास्ता आपो देवीरिह मामवन्तो यासु राजा यासु सोमो विश्वे ए देवा यासूर्जम् वैश्वानरो यास्मग्निः प्रविष्टस्ता आपो ओ देवीरिह मामवन्तो आ माम् मित्रावरुणेहरक्षतम् कुलाय यद्विश्व यन्मान आगन् रकावन् दुर्दृशे एकम् तिरोदधे माम् पद्ये एनरपसाभिदत्सरोः यद्विरामन् वरुषिवन्दनम् भुवदष्ठीवन्तौ अर्दिष्टच्छोचन्नपपाधता वितो मा मा मा मा मा मा मा मा मा मा मा माम् पद्ये एनरपसामितत्सरोः यच्छल्मलौ भवति यन्नदीषु यतोषेभ्यः परिजायते विषम् विश्वे एदेवानिरितस्तत्सुमन्तु मामाम् पद्ये एनरपसामितत्सरोः यः प्रवतो निबत उद्बत उदन्वते एननुदकाश्च याः स्मभ्यम् वयसा पिन्वमानाः शिवा देवीरशिपदा भवन्तु सर्वाः नद्योः अशिमिदा भवन्तु आदित्या नामपसा नूतनेन स क्षेमहि शर्मणाशन्तमेन अनागास्ते तुरास इमै यद्दन्तधतुश्रोषमाणाः आदित्या सो अदितिर्मादयन्ताम् मित्रो अर्ह्य वरुणोऽधिष्ठाः अस्माकम् सन्तु भुवनस्य गोपाः पिबन्तु सोममवसेनो अद्य आदित्या विश्वे हे मरुतश्च विश्वे हे देवाश्च विश्वरभवश्च विश्वे हे इन्द्रो अग्निरश्विना आतुष्टुवाना यूयम् वा आतस्वस्ति विस्सदानः आदित्या सो अदितयस्या मपूर्देवत्रापसवो मर्त्यत्रा सने एव वरुणासनन्तो भवे एवमद्या वा पृथिवीभवन्तः मित्रस्तन्दो वरुणो मा महन्त शर्मतोकायतनयाय गोपाः मा वो मान्यजा आतमे नो मा तत्कर्मवसभो यच्चयधे सुरण्यभोङ्गिरसोऽनक्षन्तरत्नम् देवस्य स पितुर्यानाः पिता च यज्ञैः पृथिवी नमो अभिः समाध ईडे बृहती ते चिड्डि पूर्वे कवयो गृणन्तः पुरो महीरधिरे देवपुत्रे प्रपूर्वजे ऊर्वजे पितरा नव्यसेऽभिर्गेर्भिष्कृध्वम् सदने ऋतस्य आ नोद्या वा पृथिवी रत्नधेया निसन्धिपुरो निद्या वा पृथिवी सुदासे अस्मे धत्त यदसदस्कृतो युजूयम् वा आदस्वस्तिभिः सदा हनः वा स्तोऽष्पदे प्रतिजानीह्यस्मान् स्वा आवेशो अनमीवो यत्ते महे प्रतिदन्नो जुषस्वशन्नो स्को ओष्पते प्रतरणो न एधिकयः स्फानो गोभिरश्वेभिरिन्दो अजरा आसस्ते सख्ये स्यामभिदेम पुत्रान्प्रति नो जुषस्ता मास्को ओष्पदे शग्मयाः आते स क्षेम हिरण्मया गातुमत्याः पाहि क्षेम उतयोगेवरन्दो यूयम् वा आतस्वस्तिभिः सदा आनः अमी बहा वा आस्तोष्पते विश्वा आरूपाण्या आविशन्न सखा सुषेव एधिनः यदर्जुनसारमे यदतः पिशङ्गयच्छसे विभ्राजन्तरुष्टय उपस्रक्वेपप्सतो दिषुष्वप स्तेनम्रायसारमे यतस्करम् वा पुनःसर स्तोत्रो म् सो ओकरस्य दर्दृ हितवदर्दर्तु सोकरः स्तोत्रो निन्द्रस्य रायसि किमस्मान्दुच्छुनाय सेलुषु स्वपा सस्तु माता सस्तु पिता सस्तु श्वासस्तु विष्पतीः स सन्तु सर्वे ज्ञातयः स स्वयमभितो जनाः य आस्तेयश्च तरति यश्च पश्यति नो तथा सहस्रशृङ्गो विधभो यः समुद्रा तुदाचरत् तेनासहस्येना वयन्निजनान् स्वापयामसि प्रोष्ठेशया वक्ये शया नारीर्यास्तल्पशीवरेः स्त्रियो याः पुण्यगन्धास्ताः सर्वाः स्वापयामसि स्वप्नस्वप्नाधिकरणे सर्वम् आसूर्यमन्यान् स्वापयाद्यूञ्जा आग्र्यादहम् अजगरो नाम सर्पः सर्पिर विशो महान् तस्मिन् निर्पः सुरितस्ते नत्वा स्वापयामसि सर्पः सर्पो अजगरः सर्पिर विशो महान् तस्य सर्पा आसिन्धमस्तस्य गाधमशीमहि कालिको नाम सर्पो नवनागसहस्रबळः यमुनादेहसो जातोयणवाहनः यदि कालिकदूतस्य यदिकाः कालिकाद्भयात् जन्मभूमिमतिक्रान्तो निर्विशो ओजाति कालिकः आया आहेन्द्रपथिभिरेलितेभिर्यमिमन्नो अभागधेयञ्जुषस्व तृप्ताञ्ज हुर्मातुलस्येव जोषा अभागस्ते पैतृष्वसेयी पपामि यशस्करम् बलवन्तम् प्रभुत्वम् तमेव राजाधिपतिर्बभूव सङ्गे एर्नरागाश्वपतिर्नराणाम् सुमङ्गल्यम् सततम् दीर्घमायोः कर्कोटको नाम सर्पो यो दृष्ट्ये एविश उच्यते तस्य सर्पस्य सर्पत्वम् तस्मै सर्पनमोऽस्तु ते ये दोरो ओचने दिवो ये एषा आ मत्सु सरस्कृतम् तेभ्यः सर्पेभ्यो नमाः या इषवो या तु धानाय वा वनस्पती ननु एवा आवटे सु तेभ्यः सर्पेभ्यो नमाः नमो अस्तु सर्पेभ्यो ये के च ये अन्तरिक्षे ये दिवितेभ्यः सर्पेभ्यो नमाः कीं व्यक्ता नरः सनीला रुद्रस्य मर्या अधाश्वश्वाः न गृह्ये एषाम् जनूम् शिवे तते अङ्गमिद्रे मिथो सा विट् सुवीरा आमरुद्भिरस्तु सनात्सहन्ते पुष्यन्ते द्रह्मम् या वञ्जेष्ठा अशुभाशोऽभिष्ठाश्रिया संमिश्रा ओजोभिरुग्राः उग्रम्बस्थिराशभांस्य आमरुद्भिर्गणस्तु विष्मान् शुभ्रो वशुष्मकृस्य धृष्णोः समेयम् यस्मद्युजोतदिद्युम् मा वो दुर्मतिरिह प्रणङ्गः प्रिया वो नाम भुवे तुराणामायत्कृपन्मरुतो वावशानाः स्वायुधा स इष्मिनः सुनिष्ठा उत स्वयम् तन्मा अशुम्भमानाः श्रीयोव्यामरुतश्रुचे एनां शुचिम् हि नोम्यद्भरम् शुचिभ्यः ऋतेन सत्यमृतसाप आयन् शुचिजन्मानः शुचयः पावकाः हंसेष्वा मरुतः खादयो गोपक्षस्वरुत्मा विविद्युतो न वृष्टिभे एरुचा न अनुस्वधामायुधैर्यच्छमानाः प्रबुध्या आव ऐरते महांसि प्रणामा हारिप्रयज्यवस्तिरध्वम् सहस्रियन्दम्यम् भागमेतङ्ग्रहमेधेयम् मरुतोजुषध्वम् यदि स्तुतस्य मरुतो अधेथेत्था विप्रस्य वाजिनो हे एमन्न मक्षो रायः सुवीर्यस्य दा तनोचिद्यमन्य अत्या आसो नये मरुतस्पञ्चो ओ यक्षदृशो न शुभयन्तवर्याः ते हर्म्येष्ठाः शिशवो न शुभ्रा वत्सा अशस्यन्तो नो मरुतोऽमृणन्तु मरि पस्यन्तो रोदसे सुमेके आरे गोहा अस्तु सुम्नेभिरस्मे वसवो न आबो होताोहमेति सप्तः सत्राचे इम् रातिम् मरुतो गृणानः य एवतो वृषणो अस्ति गोपाः सो अद्वयाविहपतेव उक्तैः इमे धुरम् मरुतो ओरामयन् इमे सहसहस आनमन्ते इमे शंसम् अनुष्यतो निपायन्ति गुरुद्वेषो अररुषे दधन्ति इमे रध्रञ्चिन् मरुतोऽजुनन्ति भ्रमिञ्चिद्यतापसवो जुषन्ता ्वम् मृषणस्तमाहंसिधत्तविष्पन्तनयन्तोऽकमस्मे मा वो ओदात्रान्मरुतो निरराममापश्चाद्दग्मरथ्यो विभागे आनस्पार्हे भजतनावसं एयदेयम् सुजातम् वृषणो भो अस्ते संयद्धनन्दमन्युभिर्जनाशूरा आजह्ष्वोषधेषु भिक्षु अधस्मानो मरुतो रुद्रिया शस्त्रातादो भूतपृतनास्पर्यः भूरिचक्रमरुतः पित्र्याण्युक्था निजावः शस्यन्ते ए पुराचित् मरुद्भिरुग्रः पतना सुसाढाः मरुद्भिरित्सनितावाजमर्वाः अस्मे वीरो मरुतः शुष्म्यस्तु जनाः नाय्यो असुरो विधत्ता अपोयेन सुक्षितयेतरेमाधस्वमोको अभिवश्याम तन्न इन्द्रो वरुणो मित्रो अग्निराप ओषधीर्वनिनो जुषन्त शर्मन् श्याममरुता आमुपस्थे यूयम् पात स्वस्तिभिः सदा नः मद्धो ओभो नाम मारुतम् यजत्राः प्रयज्ञेषु शवसा वदन्ति ये रेरयन्ति रोदसेति गुर्वीरिन्वन्त्युत्संयदयाः सुरुग्राः निजेता रोहि मरुतो गृणन्तम् प्रणेतारो यजमानस्य मन्मा अस्माकमद्य विदथेशु बर्हिरा वीतजे ए सरदविप्रियाणा नैतामदन्ये मरुतो यथे मे भ्राजन्ते रुक्मैरायुधैस्तनोभिः आरोदसे विश्वपिशः पिशानाः समानमञ्जञ्जते शुभेकम् रथक्सा वो मरुतो दिद्युदस्तु यद्भागः पुरुषदाकराम मा वस्तस्यामपि भूमायजत्रा अस्मे वो, वो अस्तु सुमतिश्च निष्ठा कृते चिलत्र मरुतो ऽणन्तानपद्या सश्युतयः पावकाः रणोऽभिर्यत्राः प्रवाजेभिस्तिरत पुष्यसे एनः उतस्तुतासो अमरुतोऽव्यन्तु विश्वेभिर्नामभिर्नरो अहवींषि ददा आतनो अमृतस्य प्रजायै चिघतराजः आस्तुतासो स्तुतासो ओ मरुतो विश्व ऊति अच्छा आसूरीन् सर्वता आता जिगाता ये न स्मना आशतिनो अवर्धयन्ति यूयम् आतस्वस्ति विस्सदा नः प्रसा आ कमुक्षे अर्चता गणा जयोदैम्यस्य नस्तु विस्मान् उतक्षो ओदन्ति रोदसीमहित्वा न क्षन्तेना जतोश्चिद्वो मरुतः विश्वोऽभोजामन्भयते स्मर्दृक् बृहद्वयो मगवद्भ्यो दधातलुजोऽन्मरुतः सुष्ठुतिन्नाः गतो नाद्भावितिरातिजन्तुम् प्रणःस्पारहाभिरोतिभिस्तिरेत युष्मोतो विप्रो मरुतश्च तस्मि युष्णोतो अर्वासहुरिः सहस्रे युष्णोतः सम्राडुतहन्ते वृत्रम् पतद्वो अस्तु धूतयो देष्णम् ताम् आरुद्रस्य वीढुषो अभिलासे कुबिन्नम् सन्ते मरुतः पुनर्नः यत्सस्पर्ता आजिः लिरे यदा विरवतदे न एमहे तुराणाम् प्रसावा सुष्ठुतिर्मघो न आमिदम् सोक्तं मरुतोऽजुषन्त आरार्चिद्वेषो वृषणो जुजोत यूयम् पा आतस्वस्तिभिः सदा आनः यन्त्रायध्व इदमिदम् देवा आसोऽयञ्चन यथा तस्मा अग्ने वरुणमित्रार्य मन्मरुतः शर्म यच्छत युष्माकम् हीरिषो यो गोपराः यदाशति नहि वश्चरमञ्च नवसिष्ठः परिवंसते अस्माकमध्यमरुतः सुते स च विश्वेभतकापिनाः नहि वूतिः पृतना सुमर्धय स्मा अराः ध्वन्नरः अभिव आवत्सुमतिर्नवे एयसेतूयीयातपिषवः वोषु इमा वो ओहं्यामरुतो दरेहि कम्मोऽश्वान्यत्र कन्तन आचनो बर्हि सदताभिताचनस्तार्हा निदातवेवसु अस्रे एधन्तो मरुतः सोम्ये मधौ सा हेहमादयाद्वै स स्पश्चिद्धितन्वा अशुम्भवाना आहंसा सो अपक्तन् विश्वम् शब्धो अभितो अमानिशे एतनरोदरण्वाः मदन्तः यो नो ओमरुतो अभि दुर्गृह्णायु स्थिरश्चिद्दानि वस भोजिघा हंसति गृहः पाशान्प्रति समुचिष्टतपिष्ठेदहन्मनाहन्तनातम् सान्तपना इदम् हविर्मरुतस्तज्जुजुष्टन युष्मा कोतीरिशालसः गृहमेधा युष्मा कोतिसुदानवः हे हवस्वतवसः कवयः यजामहे सुगन्धिम् पुष्टिवर्धनम् उर्वारुकमिव बन्धनान् मृत्योर्मुक्षेयमामृता इति पञ्चमाष्टके चतुर्थोऽध्यायः